ध्यायः ध्यानम् ॐ उत्तप्तहीं रुचिरां रविचन्द्रवह्निं नेत्रां धनुसर्जुताङ्कुशपाशशूलं रम्यैर्भुजैश्च दधतिं शिवशक्तिरूपाम् कामेश्वरीं हृदि भजा मृदितेन्दुलिकाम् ॐषिरुवाच निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसंमितम् अन्यमानं बलं चैव शुम्भक्रुद्धो ब्रवीद्वचः बलावले पाद्दुष्टे मा दुर्गे गर्वभावः अन्यासां बलमाश्रित्य युध्यसे याति मानि देव्युवाच एकैवाहं जगत्यत्र द्वितीया काममापरा पश्यैतादुष्टमय्येव विसन्त्यो मध्यभूतयः ततः समस्तास्ता देव्यो ब्रह्माडिप्रमुखालयं तस्या देव्यासनो जग्मो एकैवासीत्तदाम्बिकां देव्युवाच अहं विभक्त्या बहुविरिरूपै यदा स्थितां तत्संहृतं मयैकैव तिष्ठाम्याजो शिरो भव ततः प्रवृतैर्यद्धम् देव्या शुम्भस्य शोभयोः पश्यताम् सर्वदेवानाम् असुराणाम् च दारुणम् सर्वर्षैः सितैः शस्त्रैस्तथास्त्रैश्चैव दारुणैः तयोर्युद्धम् अभूद्युद्ध भूयः सर्वलोकभयङ्करम् देव्यान्यस्त्राणि सतशो मोचे चान्यथाम्बिका बभञ्जतानि दयितेन्द्र तत्प्रतिघातकर्तृभिम् मुक्तानि तेन तीर्णवच्चास्त्राणि देव्यानि परमेश्वरी बभञ्जलीलयैवोग्र ुङ्कारोच्चारणादिवि ततः सरस्वतैर्देवीम् आच्छादयस्सोऽशुरः सापि तत्कुपिता देवी, देवी, सा देवी धनुश्चिक्षेदचेशुभिः छिन्ने धनुषि धनुषि देव्येन्द्र तथा शक्तिमथा ददे चिक्षेदेवी चक्रेण मभ्यस्य करे स्थिताम् ततखमुपादाय शतचन्द्रं च भानुमत अभ्यधावत्तदा देवीं दैत्यानामधिपीश्वरः तस्यापत एवाशु खङ्गं च छेदचण्डिकां धनुर्मुक्तैः सितैः बाणे चर्मचार्करामलम् हताश्व स तदादैत्य छिन्नधन्वा विसारथिः जग्राहमद्गरं भोरम् अम्बिका निधनोद्यतः चिक्षीदापततस्तस्य मद्गरं चिक्षीदा निशितैसरैः तथापि सोऽभ्यधावत्तां मष्टिमुद्यम्यबीगवान् समुष्टिं पातयामास हृदि दैत्यपुङ्गवः देव्यास्त्वं चापि सा देवी तलेनोरस्य ताडयत तलप्रहाराभिहतो निपातमहीतले स दैत्यराजसहचा पुनरेव तथोत्थितम् उत्पत्त्य च प्रगृह्योच्ये देवीं गगनमास्थितः तत्रापि सा निराधारां योधे तेन चण्डिका नियुद्धम् खेतदादैत्य चण्डिका च परस्परं चक्रतो प्रथमं सिद्धिं मुनिविस्मयकारकं ततो नियुद्धं सुचिरं कृत्वा तेनाम् विकासः उत्पाद्य भ्रामयामास चिक्षेप धरणीतले स चिप्तो धरणिम् प्राप्य वेगितः, मुष्टिमुद्यम्यवेगितः अभ्यदावद् दुष्टात्मा चण्डिकानि धनेच्छयाम् समायान्तम् ततो देवी सर्वदेत्यजनेश्वरम् जगत्यां पातयामास धृत्वा शूली न वक्षसि देवी शूराग्रवीक्षतः चालयन् सकरां पृथ्वीं साब्धिद्वीपां शपर्वतां ततः प्रसन्नमखिलं हते तस्मिन् दुरात्मनि निर्मलं चाभवन्नभ उत्पातमेघा सोल्काय रागासंस्थे समं जयौ सरितो मार्गवाहिं च तथा संस्तत्रपातिते ततो देवगणाः सर्वे हर्षनिर्भरमानसाः बभोर्निहिते तस्मिन् गन्धर्वा ललितं जगुः नृतुश्चाप्सरोवणाः ववो पुण्ययास्तथां वातां सुप्रभो बुद्धिवाकरः जज्ज्वलुश्चाग्नयशान्ताः सान्तादिगजनितस्वनाः ॐ श्रीमार्कण्डे पुराणे चावणिके मन्वन्तरे देवी महात्मे शुम्भवधो नाम ॐ श्रीदुर्गायै नमः